अथ त्रिंशः सर्गः भित्त्वा तु ताम् गदाम् बाणै राघवो धर्मवत्सलः स्वयमान इदम् वाक्यम् संरब्धमिदमब्रवीत् एतत् ते मलसर्वस्वम् राक्षसाधमा शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि एषा बाणभिनिर्भिन्ना गदा भूमितलम् गता अभिधानप्रगल्भस्य तव प्रत्ययघातिनी यत्त्वयोक्तम् विनष्टानामिदमश्रुप्रमार्जनम् राक्षसानाम् करोमीति मिथ्या तदपि ते वचः नीचस्य क्षुद्रशीलस्य मिथ्या वृत्तस्य राक्षसः प्राणानपहरिष्यामि गरुत्मानमृतम् यथा अद्यते भिन्नकण्ठस्य फेनमुद्बुदभूषितम् विदारितस्य बद्बाणैर्मही पास्यति शोणितम् त्वाम् सुरोषितसर्वाङ्गः सस्तन्यस्तभुजद्वयः स्वप्स्य सेगाम् समाश्लिष्य दुर्लभाम् प्रमदामिव प्रवृद्धनिद्रेशयिते त्वयि राक्षसपांसने भविष्यन्ति शरण्यानाम् शरण्यादण्डका इमे जनस्थाने हतस्थाने तव राक्षसमच्छरैः निर्भया विचरिष्यन्ति सर्वतो मुनयोवने अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः बाष्पार्द्रवदनादीनाभयादन्यभयावहाः अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः अनुरूपगुलाः पत्न्यो यासाम् त्वम् पतिरीदृशः दृशं सशीलक्षुद्रात्मम् नित्यम् ब्राह्मण कण्टका त्वत्कृते शङ्कितैरग्नो मुनिभिः पात् गते हविः तमेवमभिसंरब्धम् ब्रुबाणम् राघवम् वने खरो निर्भर्त्सयामासरोषात्खरतरस्वरः दृढम् खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः वाच्या वाच्यम् ततो हि त्वम् बुध्यसे कालपाशपरिक्षिप्ता भवन्ति पुरुषाहिये, हि ये कार्याकार्यम् न जानन्ति ते निरस्तषडीन्द्रियाः एवमुक्त्वा ततो रामम् समृद्ध्य भ्रुकुटिम् ततः सददर्शमहासालमविदूरे निशाचरः प्रणे प्रहरणस्यार्थे सर्वतोऽह्यवलोकयन् सतमुत्पाटयामास सन्दष्टदशनच्छदम् तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः रोषमाहारयत्तीव्रम् निहन्तुम् समरेखरम् जातः स्वेदस्ततो रामो रोष रक्तान्तलोचनः निर्बिभेदसहस्रेण बाणानाम् समरेखरम् तस्य बाणान्तराद्रक्तम् बहुशुश्रावफेनिलम् गिरेः प्रश्रवणस्येव धाराणाम् च परिश्रवः विकलः सकृतो बाणैः खरो रामेण संयुगे मत्तोरुधिरगन्धेन तमेवाभ्यद्रवद्रुतम् तमापतन्तम् सङ्गृद्धम् कृतास्त्रोरुधिराप्लुतम् अपासर्पद्वित्रिपदम् किञ्चित् त्वरितविक्रमः ततः पावकसङ्काशम् वधाय समरेशरम् खरस्य रामो जग्राहब्रह्मदण्डमिवापरम् सतद्दत्तम् मघवता सुरराजेन धीमता सन्दधे च स धर्मात्मा मुमोच च खरम् प्रति स विमुक्तो महाबाणो निर्घातसमनिस्वनः रामेण धनुरायम्यखर शोरसि चापतत् सपपातखरो भूमौ दह्यमानः शराग्निना रुद्रेणेव विनिर्दग्धश्वेतारण्ये यथाम्भकः सवृत्र इव वज्रेण फेन नमुचिर्यथा बलोवेन्द्राशनिहतो निपपातः हतः खरः एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः द्वन्द्वभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा अर्धाधिकमुहूर्तेन रामेण निशितैश्वरैः चतुर्दशसहस्राणि रक्षसाम् कामरूपिणा खरदूषणमुख्यानाम् निहतानि महामृधे अहो बतमहत्कर्म रामस्य विदितात्मनः अहो वीर्यमहो दार्ढ्यम् विष्णोरिव हि दृश्यते इत्येवमुक्त्वा ततो राजर्षयः सर्वे सङ्गताः परमर्षयः सभाज्यमुदिता रामम् सागस्त्या इदमब्रुवन् एतदर्थम् महातेजामहेन्द्रः पाकशासनः शरभङ्गाश्रमम् पुण्यमाजगामपुरन्दरः आलीतस्त्वमिमम् देशमुपायेन महर्षिभिः येषाम् वधार्थम् शत्रूणाम् रक्षसाम् पापकर्मणा तदिदम् नः कृतम् कार्यम् त्वया दशरथात्मजा स्वधर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः तम् दृष्ट्वा शत्रुहन्तारम् महर्षीणाम् सुखावहम् बभूवहृष्टा वैदेही भर्तारं परिषस्वजे मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् रामम् चैवाव्ययम् दृष्ट्वा तुतोषजनकात्मजा ततस्तुतम् राक्षस सङ्घमर्दनम् सम्पूज्यमानम् मुदिरैर्महात्मभिः पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अरण्यकाण्डे त्रिंशत् सर्गः